अथ पञ्चदशः सर्गः अथ तस्य सुग्रीवस्य महात्मनः शुश्रावन्तः पुरगतो वाली भ्रातुरमर्षणः श्रुत्वा तु तस्य निनदम् सर्वभूतप्रकम्पनम् मदश्चैकपदे नष्टः क्रोधश्चापादितो महान् ततो रोषपरीताङ्गो बाली उपरक्त इवादित्यः सद्यो निष्प्रभताम् गतः वालीदंष्ट्राकरालस्तु क्रोधाद्दीप्ताग्निलोचनः भात्युत्पतितपद्माभः समरणाल इव ह्रदः शब्दम् उवाचत्रस्तसम्भ्रान्त हितो दर्कमिदम् वचः साधु क्रोधमिमम् वीरनदी वेगमिवागतम् काल्यमेतेन सङ्ग्रामम् करिष्यसि च वानरा वीरते शत्रुबाहुल्यम् फल्गुतावान विद्यते सहसा श्रूयतामभिधास्यामि यन्निमित्तम् निवार्यते पूर्वमापतितः क्रोधात् सत्त्वामाह्वयते युधि निष्पत्य च निरस्तस्ते हन्यमानो दिशो गतः त्वया तस्य निरस्तस्य पीडितस्य विशेषतः इहैत्यपुनराह्वाणम् शङ्काम् जनयतीव दर्पश्च व्यवसायश्च यादृशस्तस्य नर्दतः निनादस्य च संरम्भो नैतदल्पम् हि कारणम् नासहायमहम् मन्ये सुग्रीवम् तमिहागतम् अवष्टब्धसहायश्च यमाश्रित्यैष गर्जति प्रकृत्या निपुणश्चैव बुद्धिमांश्चैव वानरः नापरीक्षितवीर्येण सुग्रीवः पूर्वमेव मया वीरश्रुतम् कथयतो वचः अङ्गदस्य कुमारस्य भक्ष्याम् यद्यहितम् वचः अङ्गदस्तु कुमारोऽयम् वनान्तमुपनिर्गतः प्रवृत्त्यस्तेन कथिता चारैरासीन् निवेदिता अयोध्याधिपतेः पुत्रौ शूरौ समरदुर्जयौ इक्ष्वाकूणाम् कुले जातौ प्रथितौ रामलक्ष्मणौ सुग्रीवप्रियकामार्थम् प्राप्तौ तत्र दुरासदौ स ते भ्रातुर्हि विख्यातः रामः परबलामर्दीयुगान्ताग्निरिवोत्थितः निवासवृक्षः साधूनामापन्नानाम् परा गतिः आर्तानाम् संश्रयश्चैव यशसश्चैकभाजनम् ज्ञानविज्ञानसम्पन्नो निदेशे निरतः धातूनामिव शैलेन्द्रो गुणानामाकरो महान् तत्क्षमो न विरोधस्ते सहतेन महात्मना दुर्जयेना प्रमेयेण रामेण रणकर्मसु शूरवक्ष्यामिते ते किञ्चिन्न चेच्छाम्यभ्यसूयितुम् श्रूयताम् क्रियताम् चैव तव वक्ष्यामि यद्धितम् यौवराज्येन सुग्रीवम् पूर्णम् साध्वभिषेचय विग्रहं मा कृथा वीरभ्रात्रा राजन्यवीयसा अहम् हि ते क्षमम् मन्ये तेन रामेण सौहृदम् सुग्रीवेण च सम्प्रीतिम् वैरमुत्सृज्य दूरतः लालनीयो हि ते भ्राता तत्र वा वा सर्वथा बन्धुरेव न हि तेन समम् बन्धुम् पश्यामि कञ्चन दानमानादिसत्कारैः कुरुष्व प्रत्यनन्तरम् वैरमेतत्समुत्सृज्य तव पार्श्वे सतिष्ठतु सुग्रीवो विपुलग्रीवो महाबन्धुर्मतस्तव भ्रातृसौहृदमालम्ब्य नान्या गतिरिहास्ति ते यदि ते मत्प्रियम् कार्यम् यदि चापैषिमाम् हिता याच्यमानः प्रियत्वेन साधु वाक्यम् कुरुष्व मे प्रसीद पथ्यम् शृणु जल्पितम् हि मे न रोषमेवानुविधातुमर्हसि क्षमोहिते कोशल राजसूनुनान विग्रहः शक्र समान तेजसा तदा हिताराहितमेव वाक्यम् तम् बालिनम् पथ्यमिदम्बभाषे विनाशकाले इत्यादृशे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये किष्किन्धकाण्डे पञ्चदशः